सन्तानलक्ष्मी सन्ततं चिन्तये लक्ष्मीं सन्ततं चिन्तय चिन्तितार्थप्रदां जीवनविधायिनीं सन्तारलक्ष्मीं सन्ततं चिन्तय चिन्तितार्थप्रदां जीवनविधायिनीं सन्तारलक्ष्मीं सन्ततं चिन्तये ग्रहां कारुण्यवर्षिणीं तारककटाक्षां तरणिकोटिप्रभम् आराधकाभीष्टफलकारिणीं भजे तारककटाक्षां तरणिकोटिप्रभम् आराधकाभीष्टफलकारिणीं भजे सन्तानलक्ष्मीं सन्ततं चिन्तये चिन्तिताद्रप्रदां जीवनविधायिनीं सन्त सन्ततं चिन्तये श्रीमातरं भक्तचिन्नायित्वा क्षेमं करीं विष्णुचित्ता उदारा विष्णुचित्तामुदारां सन्मन्त्रमातृकां सञ्जीवरूपिणीं जन्म सा पर्य सन्तानलक्ष्मीम् चिन्तये चिन्तिता तप्रदां जीवनविधायिनीं सन्तानलक्ष्मीं सन्ततं चिन्तय